हरि ओम् श्रीसीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे पञ्चषष्ठीतमः वन्दे जनकर्तृको राज्ञव पाठः राजानम् दशरथम् दिवङ्गतम् मत्वा राज्ञीनां विलापः अथ रात्र्यां वितीतायाम् प्रातरेव वन्दिनय पर्युपातिष्ठन् तत्पातीव निवेशनम् श्रुताय परमसंस्काराय माघधश्चोत्तमश्रुतः गायक श्रुतिशीला च निगदन्त पृथक् पृथक् राजानं स्तुवताम् तेषाम् उदात्ताभि प्रासादा भोगविस्तीर्ण स्तुतिशब्दो ह सत तु स्तोताम् तेषाम् सोतानाम् पाणिवादकः अपदानान्युरदाहृत्य पाणिवादान्यवादयन् तेन शब्देन वियगाय प्रतिबुद्धाश्च स स्वनुः शाखास्थापञ्चरस्थाश्च ये राज कुलगोचराः व्यावृताय पुण्यशब्दाश्च वीणानाम् चापि निस्वनः आश्चर्येयम् च गथानाम् पूरयामास विष्मत ततशुचि समाचार पर्युप्रस्थानकोविदः श्रीवर्चवर भूयिष्ठ उपतस्तूर्यथा पुरा हरिचन्दन सम्पृक्तम् उदकम् मङ्गलालम्भनीयानि काशिनीयान्युपकरान् उपनिन्यो तथा पुण्या कुमारी बहुलास्त्रिय सर्वलक्षणसम्पन्नम् सर्वं विधिवदर्शितम् सर्वं सुगुणलक्ष्मीवत् तदभूताभिहारिकम् ततः सूर्योदयम् यावत् सर्वम् परिसमुत्सुकम् स्थावनोपसम्प्राप्तम् किन्स्वेदिद्योपशङ्कितम् अथ य कोसलेन्द्रस्य शयनं प्रत्यनन्तरः तस्य तु समागम्य भारम् प्रत्यबोधयन् अथापि उचितवृत्ता सा विनयेन च नह्यस्य शयनं स्पृष्ट्वा किञ्चिदपि उपरेभिरे शास्त्रीये स्वप्नशीलज्ञा चेष्टाम् सञ्चलनादिषु तावे पथूपरीता च राज्ञप्राणेषु शङ्कितः प्रतिस्रोतः सृणाग्राणाम् सदृशम् तञ्चकाशिरे अथ सन्देहमानानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् यत्तदा शङ्कितम् पापम् तदा यज्ञे कौसल्या च सुमित्रा पराजिते प्रसुप्ते न यथा कालसमन्विते निष्प्रभासा विवरणा च सन्नाशोके न न विराजत कौसल्याय तारैव तिमिरावृता कौसल्यानन्तरम् राज्ञ सुमित्राय तदनन्तरम् न स्म बभ्रासते देवि शोकाश्रूलुलितानना ते च दृष्ट्वा सदा सूक्ते उभे देव्यो च तम् नृपम् सुप्तम् एवोद्गतप्राणम् अन्तः पूरम् न मन्यते तथ प्रचोक्रु शिरुषूरीणा स स्वरम् तावदङ्नः करेणैव तासामाक्रन्दशब्देन सहसोद्गतचेतले कौसल्या च सुमित्रा च त्यक्तनिद्रे बहूवतुः कौसल्या च सुमित्रा च दृष्टा स्पृष्ट्वा च पार्थिवम् हा नाथेति परिकृष्य पेततुर्धरणीतले सा कौसलेन्द्र धुहिताय न भ्राजते रजोध्वस्ता सरेव गगनच्युतः नृपे शान्त गुणे दाते कौसल्याम् पतिताम्भुवि अपशन्ता स्त्रियः सर्व हताम् नागवधूमिवे ततः सर्व नरेन्द्रस्य के केयी प्रमुख स्त्रिय रुदत्य शोकसन्तप्ता नृपे दुर्गतचेतनः भिलवान्नाद भी अनुधृतः येन स्थिति कृतो भूय तद्गृहं समनादयत् तत्परि तृत्त सम्भ्रान्त जनाकुलं, सर्वतस्तु मुलाकृन्दम् परितापार्थबान्धवम् सद्यो निपतितानन्दम् दीनं विक्लव दर्शनम् बभूव नरदेवस्य सद्म दृष्टान्तमीयुषः अतीतमाज्ञायतुपातिवर्षभम् यशस्विनं तं परिवार्य पत्न्य भृशमुदत्य करुणं सुदुःखिताय करुण प्रगृह्य बाहु व्यल्पन्न न सवत् विद्याश्रे श्रीमन् रामायणे वाल्मीकि अधिकवे विद्याकाण्डे श्री सीतारामचन्द्रार्पणमास्तु